नमस्कारः अस्माकं योगनित्यजीवनम् इति वर्गे भवतां सर्वेषां स्वागतम् अद्यतनविषयः आध, अस्ति जीवने जामिता जामिता इत्युक्ते बोर्डम् इन् लैफ़् वै वै वि आर् बोर्ड् वित् लैफ् अस्मिन् लोके जनाः सर्वकार्येषु स्वस्वकार्येषु रताः सन्ति तथापि कालान्तरे तेषु कार्येषु विरक्तताम् अथवा जामिताम् अनुभवन्ति दि एक्स्पीरियन्स् बोर्डम् दि कीप् डूङ्ग् एक्टिविटीस् आफ़्टु सम्टैम्स् दि एक्स्पीरियन्स् बोर्डम् इन् दट् आक्टिविटि यथा उदाहरणार्थं किञ्चित् विशिष्टभोजनम् अस्ति तादृशभोजनं प्रति कश्चन आसक्तः अस्ति यता तत्र रसगुल्ला इति चिन्तयतु परन्तु यदि सः पुरुषः प्रतिदिनं तदेव भुङ्क्ते तदानीं किं भवति तस्मात् शीघ्रमेव जामिता आयाति अन्यः पुरुषः कश्चन निद्रायां रतः अस्ति तर्हि तस्य कृते निद्रा करणीया चेत् आनन्ददायकः विषयः अस्ति परन्तु यदि सः एव पुरुषः दीर्घयात्रायां यदि शयानः अस्ति सः पुरुषः तदानीं किञ्चित् कालानन्तरं सः जामिताम् अनुभवति अथवा अन्यत् उदाहरणं कश्चन पुरुषः स्वस्य गृहे सुखेन अस्ति गृहं सम्यक् वातावरणं सम्यक् अस्ति सः वसति किञ्चित् कालानन्तरं सः जामिताम् अनुभवति सः चिन्तयति अहम् दूरे पर्वतप्रदेशं गच्छामि तदानीं सुखं लभ्यते इति तर्हि पर्वतयात्रायां सः गच्छति तर्हि किञ्चित् कालानन्तरं वनवासे स्थित्वा तर्हि पुनः जामिताम् अनुभवति इति पुनः चिन्तयति अहं गृहं सुखम् इच्छामि गृहं सुखम् एव सः कामयते तर्हि इदानीं प्रश्नः अस्ति किमर्थं जनाः जामिताम् अनुभवन्ति सर्वाणि भौतिकसुखानि क्षणिकानि मनुष्याः तु अनन्तेषाम् इच्छन्ति भौतिक सुखैः अनन्तेषणा न तृप्यति अतः पुनः पुनः भौतिकसुखानां पुनरावृत्तिः यदा भवति तया तृप्तिः न भवति किन्तु जामिता एव जायते तर्हि यदा जीवने प्रतिदिनं तदेव पुनः पुनः अनुभवामः तदानीं स्वाभाविकतया जामिता आयाति जनाः परिवर्तनम् इच्छन्ति सर्वदा द्रासस् ग्रीनर् एल्स्वेर् भौतिकसुखस्य स्वरूपं किम् इति चेत् पुनरावृत्तिमयम् अपि च सीमितं च वर्तते जनाः सर् स सा, सामान्यतया अन्येषां सुखं दृष्ट्वा मोहिताः भवन्ति अन्येषां सुखं दृष्ट्वा मम जीवनं दुःखमयम् अस्ति इति ते चिन्तयन्ति तर्हि तदर्थं ते सर्वदा सुखस्य अन्वेषणाय प्रयत्नं कुर्वन्ति यदा तादृशसुखं लभ्यते तर्हि तस्मिन् सुखे पुनः जामिता आयाति एवम् अत्र चक्रं प्रचलति सुखदुःखचक्रं प्रचलति यथा काव्ये अथवा चलच्चित्रे केवलं हास्यं वा शोकं शोकः वर्तते तदानीं रुचिकरं न भवति तत्र मिश्रणमेव आवश्यकं मिश्रणमेव रुचिकरं भवति हास्यमपि भवेत् शोकः अपि भवेत् सर्वं मिश्रितं चेत् आनन्दम् अनुभवन्ति जनाः एवम् एव जीवनम् अपि सुखदुःखमिश्रितं वर्तते कश्चन पुरुषः विवाहितः चेत् जीवनं सुखमयं भवति इति चिन्तयति अतः यदि कोपि पुरुषः विवाहितः चेत् तं पुरुषं दृष्ट्वा सः चिन्तयति ओ सः पुरुषः सन्तुष्टः अस्ति अहम् एकाकी अस्मि अतः मम जीवनं दुःखमयम् इति चिन्तयति तर्हि तत्र पुनः दुःखं दुःखमस्ति किञ्चित् कालानन्तरं सः पुरुषः विवाहितः अभवत् विवाहितः भवति तर्हि विवाहानन्तरं किञ्चित् कालानन्तरमेव सः अनुभवति यत् विवाहितजीवनं दुःखमयम् अस्ति इति पूर्वं यत् सुखमासीत् इदानीं दुःखं जातं तर्हि अत्र सुखदुःखयोः पुनरावृत्तिः एव बन्धनं जनयति तस्मात् तत्र विरक्तता अथवा जामिता पुनः जायते तर्हि इदानीं जामिता तत्र सङ्केतः समीचीनः सङ्केतः अस्ति जामिता वै बोर्डम् इस् अ पासिटिव् सैन् बोर्डम् इस् नाट् अ नेगेटिव् सैन् बोर्डम् इस् अ पासिटिव् सैन् विरक्तता अथवा जामिता साधनायाः महत्त्वपूर्णम् अङ्गम् यदा जनाः भौतिकवस्तुषु तृप्तिं न प्राप्नुवन्ति तदा एव तेषां मनः आध्यात्मिकमार्गे प्रवर्तते यदि जनाः जनाः केवलं गृहसुके अथवा धनसुके च तृप्ताः भवन्ति तर्हि ते पशुवत् जीवनं यापयन्ति पशुषु अनन्तेषणा न वर्तते अतः पशुषु जामिता न भवति पशुषु पशवः तु पुनः पुनः तदेव कुर्वन्ति तथापि तेषु जामिता वर्तते मनुष्येषु अनन्तेषणा नित्यं वर्तते अतः एव तेषु जामितायाः अनुभवः भवति तर्हि जामितायाः तत्र उपायः कः जामितानिवारणाय उपायः कः इति चेत् आध्यात्मिकता एव बन्धन बंदन, बन्धनस्य भङ्गाय आध्यात्मिकता एव शक्तिं ददाति आध्यात्मिकता एव जनान् आनन्दं प्रति नयति तर्हि आध्यात्मिकतायां जामिता भवति वा इति चेत् आध्यात्मिकतायां विरक्तता जामिता नसंभवति सम्भवति यतः पुनरावृत्तिः नास्ति केवलं केवलं श्रद्धया श्रद्धया साधनां करोति भक्तिं अनुभवति भक्तिम् आचरयति तर्हि जीवनं सन्तोषमयं भवति तर्हि यदा यदा जनाः योगनिश्च जीवने प्रवेशं प्राप्नुवन्ति तदानीं तेषां पार्श्वे समयः नास्ति यतोहि जीवने जीवने व्यस्तता भवति यतोहि ते नित्यकर्माणि अनन्तरं जगत् हित् जगतः सेवा एतत् सर्वं कुर्वन्ति खलु अतः जीवनम् आनन्दमयमेव भवति अतः जामितायाः अवसरः नास्ति तर्हि अन्ततो गत्वा अत्र किमवगन्तुं शक्नुमः इति चेत् भौतिकसुखानि क्षणिकानि मनुष्याणां वास्तविकं लक्ष्यं अनन्तेषणा किन्तु ते भौतिकसुखेषु अनन्तेषणायाः अन्वेषणं कुर्वन्ति इति कृत्वा पुनः पुनः जामितां प्राप्नुवन्ति तर्हि वस्तुतः जामिता सुभावा वा अशुभा वा इति चेत् शुभा एव यतः सा जामिता भौतिकसुखस्य व्यर्थतां बोधयति सुखदुःखचक्रात् मोक्षः केवलं आध्यात्मिकमार्गेण लभ्यते तदर्थं किम् आवश्यकम् इति चेत् भक्तिः आवश्यकी अस्ति पूर्वमपि मया एकवारं चर्चितम् आसीत् यत् यदा किमपि प्रष्टव्यं परमात्मन परमात्मानं दृष्ट्वा किमपि प्रष्टव्यं मह्यम् एतत् ददातु इति तत् किम् इति चेत् लौकिकवस्तु नास्ति परन्तु भक्तिः भक्तिः एव प्रष्टव्या यदा भक्तिः लभ्यते तदानीं सर्वं लभ्यते तदानीं साधना रसकरं रुचिकरं भवति साधनायां रसः नास्ति चेत् व्यर्थमेव साधना भक्तिं विना साधना साधनायां रसः न भवति अतः किमपि प्रष्टव्यं चेत् केवलं भक्तिः भक्तिः भक्तिः एव प्रष्टव्या इति अत्र अद्यतनविषयः अस्ति किमपि वक्तव्यं वा नो चेत् अग्रे गच्छामः अस्माकं करपत्रं प्रति गच्छामः भगिनि जामिता वा जामिता किमस्ति जामिता जामिता मीन्स् बोर्डम् जकार जकारमिता जामिता इति वयं वक्तुं शक्नुमः विरक्तता इति वक्तुं शक्नुमः इत्युक्ते वस्तुतः संस्कृतभाषायां साक्षात् किं तत्र बोर्डम् इत्यस्य साक्षात् अनुवादः नास्ति इत्युक्ते उद्वेगः इति वयं वदामः रेस्लेस्नेस् इति वयं वदामः इति विदु एन् आक्टिविटि गे ट्रेस्लेस् वित् देट् एक्टिविटि इति उद्वेगः इति वक्तुं शक्नुमः अथवा अरुचि अरुचिकरम् इति वक्तुं शक्नुमः लेक् आफ़् इण्ट्रेस्ट् इति वक्तुं शक्नुमः उदासीनता इण्डिफरेन्स् इति वक्तुं शक्नुमः अथवा बहवः जनाः सन्ति ये आध्यात्मिकमार्गे गच्छन्ति किन्तु तत्र आनन्दं न प्राप्नो प्राप्नुवन्ति पूर्णतया मन न गच्छति तत्र न इत्युक्ते तत्र वास्तविकमार्गः अस्ति वा न वा इति अपि चिन्तनीयं तत्र आध्यात्मिकमार्गः इत्युक्ते लोके बहवः जनाः वदन्ति आध्यात्मिकमार्गे किमपि करोति इत्युक्ते केवलं किमपि पठन्ति तत्र रुचिः नास्ति इति नवचनम् शृण्वन्ति किन्तु जीवने तस्य आचरणं न कुर्वन्ति किन्तु इति प्राथमिकवे प्राथमिक इति आरम्भं भवति न आरम्भ आमामाम् इत्युक्ते श्रवणम् श्रवणम् आवश्यकं गत्वा वा केनापि आ, महात्मा तेषां वचनं श्रुत्वा एव मनसि ध्यायते न मम जीवनस्य लक्ष्यं किम् अस्ति वा किमपि यदि ते पठन्ति किन्तु इति सर्वे इति नगिनी न भगिनी इत्युक्ते वयं बहु किमपि शृण्मः खलु mm -hmm. वयं कुत्रचित् गच्छामः शृण्मः बहु सम्यक् अस्ति मम बहु रुचिकरम् इति शृण्मः आनन्दम् अपि च गृहं mm -hmm. प्रति गच्छामः तावदेव mm -hmm. गृहे गत्वा तस्य आनयनं कथम् इति न जानीमः mm -hmm. व्यवहारे आनयनं कथम् इति न जानीमः अस्माकं mm -hmm. अस्माकम् एकघण्टायां यद् वयं शृण्मः तेन वयम् अवगन्तुं न शक्नुमः अस्माकं जीवने तस्य आनयनं कथम् इति तर्हि अत्र योगनिष्ठजीवने कः भेदः इति चेत् अत्र यद्वयं यस्य अध्ययनं कुर्मः तस्य जीवने आनयनम् इति अपि वयम् अवगच्छामः तस्य आनयनं वयं कुर्मः ततः एव वयं वदामः सर्वदा यत् नैन्टि नैन् योग ओन् पर्सेण्ट् इस् आम् अस्तु तर्हि यद् किमपि वयं वदामः तस्य जीवने आनयनार्थं तत्र मार्गाः सन्ति तादृशमार्गाणां वयम् अभ्यासं कुर्मः तर्हि इदानीं ब्रह्मचर्यभावः इति वयं वदामः तस्य अभ्यासं कुर्मः प्रतिदिनं कुर्मः इदानीं मरणकाले परमात्मनः परमात्मनः स्मरणं भवति इदानीं तत्र प्रतिदिनं वयं लौकिकवस्तुषु व्यवहारं कुर्मः तस्मिन्नेव रताः स्मः चेत् तर्हि अन्तिमकाले परमात्मनः स्मरणं भवतिवा, वा कदापि न भवति, भवति तर्हि तत्र तत्र कदापि ओ मम पुत्रः किं करोति मम गृहं मम गृहस्य किं भवति तस्य एव चिन्तनं भवति तर्हि प्रतिदिनं भावाः यदा भावस्य ग्रहणं न कुर्मः तदानीं अन्तिमदिने यदा मरणं मरणम् आयाति परमात्मनः चिन्तनं तदानीं तदानीमपि भवति यतोहि प्रतिदिनं ब्रह्मचर्यभावस्य अभ्यासं कुर्मः तर्हि ब्रह्मचर्यभावस्य अभ्यासः कथं करणीयम् इति पद्धतिः अस्ति साधनायां तस्य अध्ययनं तस्यापि ज्ञानं लभ्यते तर्हि साधनायाम् एकः एव पाठः इति न नास्ति बहवः पाठाः सन्ति तत्र मार्गाः सन्ति येन तत्र प्रतिदिनं वयम् अभ्यासं कुर्मः प्रतिक्षणम् अभ्यासं कुर्मः तेन किं भवति इति चेत् मनः पक्वं भवति पक्वं भवति चेत् तदानीं तदानीं तत्र अभ्यासः भवति सर्व सर्वम् अभ्यासेन भवति खलु इदानीं भवती, भवती पूर्वम् उपवा, उपवासः निर्जल उपवासः न कृतवती एव उपवासमेव न कृतवती भिन्नरीत्या कृतवती परन्तु इदानीं यदा उपवासं कर्तुम् आरब्धवती तर्हि किञ्चित् कालानन्तरम् अभ्यासः जातः तदनन्तरं यदि न करोति तदानीं तत्र यु फील् गिल्टि मया न कृतम् इति खलु आम् हा इति तत्र यत्किमपि वयं शृण्मः तस्य जीवने आनयनं कथम् इति बहु मुख्यविषयः अस्ति तस्य एव अत्र अस्मिन् मार्गे सम्यक्तया अस्माकम् उपदेशः लभ्यते अन्यत्र यत्किमपि शृण्मः तस्य आनयनं कथम् इति न जानीमः अन्यत्र बहु किमपि शृण्मः सर्वं सम्यक् इति इति नास्ति बा, बहुत्र सम्यक् अपि भवितुमर्हति परन्तु तस्य जीवने आनयनं कथम् इति न जानीमः परन्तु योगनिष्ठजीवने जीवने, जीवने कथम् आनयनम् इति वयं जानीमः यदा वयं जानीमः तदानीं मनः उपरि अदौ भागे न गच्छति सर्वदा कामेव भवति अतः जामिता न आयाति जामिता न आयाति आध्यात्मिकजीवने जामिता न आयाति <laughs> अस्तु प्रारम्भिकस्तरे प्रारम्भिकस्तरे यतोहि एतावता स्थिरता न स्थिरता न लब्धा खलु तदानीं जामिता अस्ति इति भाति अस्माकं यतोहि यदा यदा कोऽपि पुरुषः यतमानस्तरे अस्ति इदानीमेव यौवनस्य जीवने प्रवेशं सः पुरुषः प्राप्तवान् तदानीं सः सर्वस्य सम्यक्तया जीवने एतावता अभ्यासं न कृतवान् तस्य न कृतवान् तदानीं सः प्रायः जामिताम् अनुभवितुं शक्नोति परन्तु यदा सः पुनः पुनः कृत्वा स्थिरतां प्राप्तवान् तदानीम् अवश्यमेव जामिता यतो दिशी, दिशी सहा सहा न भवति यतोहि मनः तस्मिन् दिशि तस्यां दिशि गच्छति यदा तस्यां दिशि मनः लग्नम् अस्ति तदानीम् अन्यत्र गमनार्थं मनसः अभ्यासः नास्ति इदानीं इत्युक्ते अभ्यासेन कौन्तेयः वद, इति वदति खलु कृष्णः तदेव अत्रापि अस्ति अभ्यासेन कौण्ट् कौण्टिङ्ग् दीर्घकालनिरन्तरम् अभ्यासकरणीयम् सत्यं सत्यं तदा कुर्मः चेत् तदानीं जामिता नास्ति किमपि नास्ति रुचिकरम् आनन्ददायकं जीवनं किमपि तत्र यतोहि यतो हि अस्माकं पृथक् अस्तित्वमेव नास्ति खलु साधनं वयं कुर्मः साधनायाः पद्धति सुचित्राभग्नि uh, जानाति साधनायाः पद्धतिं वयं जानीमः चेत् तदानीम् अस्माकं पृथक् अस्तित्वमेव नास्ति पृथक् अस्तित्वम् अस्ति चेदेव जामिता एतत् सर्वमस्ति खलु पृथक् अस्तित्वमेव नास्ति ब्रह्मचर्यभावः भावः अस्ति सर्वदा तदानीं किमर्थं जामिता एकाकी अस्ति चेदपि जामिता नास्ति किमस्ति सुचित्रा भगिनी किमपि वदति वा भवती न श्रूयते भगिनि जामिता अस्ति वा न वा भवती किं चिन्तयति न श्रूयते भगिनि किमपि न श्रूयते श्रूयते वा पुनः इदानीं श्रूयते पुनः तत्र जामितभावः इति नास्ति केवलं तु एक भिन्न भिन्नरीत्या एकः अनुभवः अस्ति तत्र जामिता इति वक्तुं न शक्नुमः आनन्दस्य अनुभूतिः अस्ति इदानीं तु एकाकी भावः नास्ति सर्वदा एकः किमस्ति परमपुरुषस्य सान्निध्यम् एव अस्ति इति चिन्तयामि न जानामि परन्तु जामितभावः नास्ति वा एकाकीभावः नास्ति तत् सम्यक् भगिनी समीचीनम् उत्तमम् इति एव अस्ति इति एव मम अनुभवः अपि अस्ति यतोहि तत्र परमपुरुषः सर्वदा अस्ति इति भावः अस्ति खलु तर्हि जामिता नास्ति किमपि नास्ति इत्युक्ते अग्रे किं मया किं करणीयं तत्र एव मम मम सेवाकार्यं किम् अस्ति तत्र मम मनः गच्छति तावदेव इति अपि मम अनुभवः अस्ति अस्तु अहं वदामि किम् आर्य वदतु वदतु वदतु स्वामी भवतः अनुभवः कः अवश्यं जामिता भविष्यति आध्यात्मिकप्रयाणे अपि साधारणतया तदेव दृश्यते किन्तु यदि दशवर्षानन्तरं जामिता न भवति तर्हि पञ्चदशवर्षानन्तरं जामिता भवति नास्ति चेत् त्रिंशत् वर्षानन्तरमपि जामिता अवश्यं भवति किन्तु यद् सः साधकः अनन्यभक्तिः अस्ति पूर्वं भवता उक्तम् अनन्यभक्तिः अस्ति साधना अपि तथैव करोति चेत् इत्युक्ते सरलरूपेण साधने सः अस्ति सा अस्ति तर्हि जामिता न ना भवति नास्ति चेत् अवश्यं भवति कालानन्तरं सत्यं सत्यं सम्यक् सम्यक् इति तत्र इत्युक्ते अस्माकम् आसक्तिः साधनायाम् अस्मा अस्मासु अस्मा भक्तिः कियति अस्ति एतत् सर्वम् आधारीकृत्य एव जामिता अस्ति वा न वा इत्युक्ते वास्तविक आध्यात्मिकता वा केवलम् उपरि उपरि आध्यात्मिकता इति अपि अवश्यमस्ति आध्यात्मिकतायाम् अहं प्रविष्टः अस्मि प्रविष्टा अस्मि परन्तु तत्र कस्मिन् स्तरे अस्मि अहम् इदानीं यतमानस्तरे अव दशवर्षपर्यन्तमवे अपि अहं यतमानस्तरे एव अस्मि इति चिन्तयतु सर्वं सम्यक् न करोमि अद्य करोमि श्वः न करोमि पुनः किञ्चित् करोमि किञ्चित् न करोमि इति एवं न अहं करोमि चेत् तत्र जामिता भवति एव परन्तु यः निरन्तरप्रयासः अभ्यासः दीर्घकालपर्यन्तं करोति तर्हि किञ्चित् स्वभावः अवश्यं स्वभावः भवति भक्तिभावः वर्धते तदानीं जामिता न भवति इति आम् स्वामीजी तथैव अस्ति okay. ओके तर्हि सम्यक् अस्ति चर्चा तर्हि अस्माकं करपत्रं प्रति गच्छामः वा अस्मिन् okay. जगति मनुष्याः कथं जीवेयुः इति अत्र अस्माकं विषयः अस्ति उक्तं यत् शिष्टिचक्रे यदा मनुष्याणाम् भवति तदानीं मनुष्येषु चैतन्यस्य प्रतिबिम्बः सम्पूर्णतया भवति इति अस्माभिः दृष्टं दश दशवादने दशवादने प्रकृते मनुष्येषु प्रकृतेः प्रभावः हा न्यूनः अस्ति पशूनाम् अपेक्षया तथापि मनुष्याः प्रकृतेः प्रभावात् सम्पूर्णतया विमुक्ताः न इतोपि तेषाम् अग्रगमनम् आवश्यकम् अस्ति द्वादशवाद वादनपर्यन्तं गमनार्थं तर्हि तत्र तर्हि तत्र किं किं भवति इति चेत् मनुष्याः प्रकृतेः नियमानां पालनं न कुर्वन्ति चेत् तदानीं तेषाम् अधोगमनं भवति कर्मफलानां कर्मफलानां सञ्चयः भवति सङ्ग्रहः भवति तर्हि पुनः जन्ममरणचक्रे ते पतन्ति अपि च ता, तादृशाः साधना साधनमपि न कुर्वन्ति यतोहि तेन किं भवति इति चैतन्यस्य विस्तारः अपिना न भवति परन्तु अग्र शीघ्रतया अग्रगतिः भवेत स्थूलात् सूक्ष्मपर्यन्तम् अग्रगतिः भवेत् चेत् तदानीं प्रकृतेः नियमानां पालनं आवश्यकम् अनन्तरं साधना अपि आवश्यकी तर्हि अत्र एतादृशकर्माणि उत्तमकर्माणि इति वयं वदामः प्रकृतेः नियमानां पालनम् अपि च साधना एतादृशकर्माणि उत्तमकर्माणि तेन किं भवति इति चेत् तत्र उत्तमकर्माणि विद्यामया इति वयं वदामः वस्तुतः तर्हि उत्तमकर्माणि इत्युक्ते विद्यमाया तत्र वैराग्यं विवेकः इति अंशद्वयं वैराग्यम् इत्युक्ते विरागस्य भावः जगति वयं वसामः परन्तु जगति यानि स्थूलवस्तूनि सन्ति तेभ्यः वयं रताः न भवामः भगिनि यदि विराग इति वदामः विशिष्टराग इति न वक्तुं शक्नुमः रागमिन् आसक्तिः भवति विशिष्टासक्तिः न न अत्र विरागः इत्युक्ते विगतः रागाः विगतरागाः अस्तु ओके धन्यवादः अहं वि इति विशिष्ट अपि वक्तुं शक्नोमि तदा विशिष्ट इति प्रयोग अपि भवति वि वि इत्यस्य विगतः राग विगतरागः अस्ति अस् इति कथं भवति धन्यवादः तर्हि तर्हि अत्र वैराग्यम् इति दृष्टवन्तः तर्हि अनन्तरम् अत्र अस्ति विवेकः विवेकः इत्युक्ते उचितः कः अनुचितः इति यद्वयं वे वेदं स्थापयितुं शक्नुमः तदेव तत्र विवेकः इति वयं वदामः यथा तत्र मधुपानमस्ति मधुपानस्य सामान्यतया प्रयोगः हानिकारकं वर्तते परन्तु तस्य प्रयोगः औषधेषु उचित उचितप्रयोगः अस्ति एतादृशज्ञानमेव विवेकः इति वयं वदामः तर्हि उत्तमकर्माणि कानि येन अस्माकम् अग्रगतिः भवति इति चेत् विवेकः वैराग्यम् इति विद्यामायायाः अंशः विद्यामायाः सहायं स्वीकुर्मः अग्रगतिः भवति अविद्यामायाः सहायं स्वीकुर्मः अधोगतिः भवति तत्र स्थूलपर्यन्तम् अस्माकं गमनं भवति तर्हि अत्र विद्यामाया अविद्यामाया परस्पर परस्पर विरुद्ध विरुद्धशक्ति शक्तिद्वयं प्रकृतेः तर्हि अत्र अविद्यामायाः या अनुचितकर्माणि सन्ति येन अस्माकम् अधोगतिः भवति तर्हि तदानीं मनः स्थूले स्थूलवस्तूनि आसक्तः यदा स्थूलवस्तूनि आसक्तिं प्राप्नुवन्ति तदानीं प्रकृतेः प्रभावः अधिकः भवति यदा प्रकृतेः प्रभावः अधिकः भवति तदानीम् अग्रगतिः पुरुषोत्तमं प्रति अस्माकम् अग्रगतिः स्थगिता भवति तर्हि तर्हि अस्माकं कार्याणि प्रकृतिनियमानुगुणम् अस्ति वा न वा इति अस्माभिः चिन्तनीयं प्रकृतिनियमानुगुणं नास्ति चेत् तत्र अग्रगतिः स्थगिता भवति इति तावत् पर्यन्तम् अस्माभिः दृष्टं तर्हि अनुचितकर्माणि दुष्टकर्माणि कानि अविद्यमायाः अंशाः के इति इदानीम् अग्रे द्रष्टव्यं तदर्थम् अत्र अहम् इदानीं करोमि दृश्यते वा मम स्क्रीन. दृश्यते इदानीम् ओके okay. सुचित्रवग्नि पठितुम् इच्छति न श्रूयते भगिनि श्रुचित्रा भगिनि श्रूयते okay, yeah. अधुना एव श्रूयते परन्तु किन् किमपि अन्तर्जालस्य समस्या अस्ति इति चिन्तयामि स्क्रीन् मध्ये अहं किमपि न पश्यामि ओ एवं, एवं। पुनः लागिन् करिष्यामि ओके okay, तर्हि सरला भगिनि वा यानि कर्माणि स्थूलवस्तुषु मनः आकर्षयन्ति अपि च प्रकृतिनियमविरुद्धं कार्यं कर्तुं प्रेरयन्ति तानि दुष्टकर्माणि अथवा अविद्यामाया भवन्ति अविद्यामाया शिपूणाम् शतशत्रवः अष्टापाशानाम् अष्टौ बन्धनानि च कर्तरि भवति कामः पार्थिवविषयाभिलाषः क्रोध रोषः लोभ वृत्तेहा मोह आकर्षणम् मदः अलीकता मात्सर्य ईर्ष्या षट श्रव सी भय भीजा री घृणा द्वेश शंका सन्देह कुल उच्चवंशला संस्कृते जटिलतालीकता जुगुप्सा पिशूनता चष्टौ बंधना सी षट ऋपु इतव अर्थ एक्त मनुष्येषु शत्रवः इति उच्यन्ते यतः यतः ते मनः स्थूलतायाम् उपसहारन्ते सूक्ष्मम् प्रति च निवारयन्ति जीवात्मनः परमपदम् सूक्ष्ममम् अस्ति यत्किमपि च परमपदम् प्राप्तुम् जीवात्मनम् निवारयति तत् तस्य शत्रुः एते शत शब्दः अतः षट् शत्रवः इति उच्यन्ते अष्टापाशा इत्यस्य अष्टौ बन्धनानि इति अर्थः पाशैः कश्चित् बद्ध चेत् स स्वस्य वा स्वस्य अष्टपाशाः अष्टपाशाः अष्टा न अष्टपाशाः अष्टपाशाः इत्यस्य अष्टौ बन्धनानि इति अर्थः पाशैः कश्चित् बद्ध चेत् सः स्वस्य वा स्वस्याः गतिसामर्थ्यस्य नाशं करोति मनुष्याणां गतिः स्थूलात् सूक्ष्मपर्यन्तं भवति इति वयं सृष्टौ पश्यामः अर्थात् मनुष्यैः सूक्ष्मं प्रति सूक्ष्मं प्रति गन्तव्यं भवति परन्तु अष्टपाशेषु यथा लज्जा आ, भयं घृणम् इत्यादिषु प्रतिसरणेन मनुष्यः स्थूलेषु एव लीनाः भवन्ति सूक्ष्मं प्रति तेषां प्रगतिः निवृता भवति इदानीं दत्तमस्ति अविद्यामाया का अस्ति तेषाम् अ शदरिपव अष्टपाशा सन्ति ते ए... मिलित्वा इति अविद्या माया वदामः अनेन किं भवति अस्माकं प्रगति स्थूलता सूक्ष्मं प्रति न भवति बाधा आगच्छति सूक्ष्मं प्रति प्रगति कृते किन्तु यत् पूर्वं स्थितिः अस्ति तस्य व्यधो गच्छति यदि एते आगत्य एते दोषाः आगच्छन्ति अस्मा अस्माकं व्यवहारे कानि के दोषाः सन्ति शतरिपवः अस्ति काम इति अस्माभिः इच्छा इति पाठिव वस्तूनि प्रति लोके विषयाः सन्ति अस्माकं ये इन्द्रियाणि सन्ति तेषां ये विषयाः सन्ति तेषां प्रति यत् अस्माकम् आसक्तिः भवति तत् भवति काम यदि कामस्य पूर्तिः न भवति तत्र क्रोधः आगच्छति पुनर् पुनः अधिकं काम अ, जायते तत्र तत्र अपि यदि कामस्फूर्तिः भवति तदा लोभजायते अधिकं मया इति प्राप् प्राप्य मया प्रा, प्राप्य भवेत् इति भवति तदनन्तरं यदि वस्तूनि वयं प्राप्नुमः तदनन्तरं मोह अपि जायते यथा किमपि मम पुत्रः कुं क किमपि करोति अहं तेषा तस्य दोषः अपि अस्ति मम अहं माता एव तत्र दोषं न पश् पश्यामि केच पुत्रस्य मोह कृते अहं तत् ऐ लेट् गो देट् सो मम पुत्रः अपि तस्य पन्थं भवति स तस्य दोषा तस्य सम्यक् न कर्तुं शक्नोमि इति भवति माता यदि पुत्रस्य मोहं मोहं मोह पुत्र पुत्रमोह मायाम् इति आगच्छति इति उदाहरणं भवति तथा मद भवति आयुष्या भवति मद मद इति अहं किमपि मद अस्ति प्रैड् इति भवति स मम कृते किमपि अस्ति तस्य अहम् अहङ्कारं करोमि इति भवति मद आचर्य आगच्छति एते सर्व शत्रवः सन्ति यदि तेषाम् अहं वयं खलु मतः तेषांतया सूक्ष्मतया न निवारणं कुर्मः तत्र वयम् अधोगति प्रति गच्छामः इति भवति अष्टपाशा अस्ति लज्जा घृणा शङ्का सन, किमपि सन्देहः संशयः भवति इति मम कुल उच्चः अस्ति अन्यत् प्रति ये तेषां इति वंशस्य वंशस्य अहङ्कार भवति इति जुगुप्सा अस्ति यो कोऽपि अन्य करोति तस्य प्रति जुगुप्सा कथं वदामः भगिनि जुगुप्सा जानामि इदानीं जुगुप्सा अस्तु एते सर्वे दोषा अस्माभिः निष्कास्य निष्कास्य निष्कासीयाः निष्कासनीयासीयाः इति अस्ति अत्र अस्मिन् विद्या मायाका षट् षड त्रिपव अष्टपाशाः ते मनुष्यं वन्दनं बन्धने बन्धन् बन्धनं कर् कुर्वन्ति मनुष्ये एते बध्नाति बध्नाति एतानि बध्ना बध्ना बध्नन्ति बन्न, बन्न, बध्नन्ति ओके हा समीचीनम् अस्य विषये अस्माभिः पूर्वमपि चर्चितम् अस्माकं तु एकसहस्रं वृत्तयः सन्ति तेषु एका वृत्तिः परमपुरुषं प्रति अस्ति आकर्षणं परमपुरुषं प्रति एका एव वृत्तिः अस्ति अन्याः सर्वाः वृत्तयः अन् दिशि एव गच्छन्ति तर्हि तत्र तादृश एका परमपुरुषं प्रति या वृत्तिः अस्ति सा वृत्तिः जागरिता चेत् तदानीं तत्र येते सर्वे अष्टपाशाः षट्रिपवः तेषाम् अस्तित्वं न भवति तर्हि तत्र भक्तिभाव इत्युक्ते भक्तिभावः भवेत् परमात्मानं प्रति आकर्षणं तदानिम् तदानीम् एतादृशभावनाः न्यूनाः भवन्ति ते स्वयमेव अपगच्छन्ति तर्हि एतादृश भावनानाम् अधीने भवति कश्चन यदा तस्मिन् भक्तिभावः नास्ति तर्हि स्थूलवस्तूनि सः आकृष्टः अस्ति तदानीं तादृश अहङ्कारः स्वस्य स्वस्मिन् सः तिष्ठति अहङ्कारे तिष्ठति तदानीम् एतादृशभावाः भावनाः भवन्ति तदर्थमेव वयं वदामः जगतः हितः इति किमर्थं वयं वदामः इति चेत् यदा जगतः सेवां कुर्मः तदा तदा मनः वर्दते यदा मनः वर्धते तदानीं मनसि एतादृशभावनाः स्वयमेव अपगच्छन्ति शनैः शनैः शनैः प्रयासेन अपगच्छन्ति तदर्थं सेवा बहु बहु आवश्यकी अस्ति यतोहि तत्र भावना तत्र किम् अत्र यः पुरुषः मम अस्ति यस्य कृते अहं परमात्मनः यन्त्ररूपेण सेवाम करोमि यः मम पुरतः अस्ति सः अपि ब्रह्मा अस्ति तस्य कृते सेवां करोमि इति यादृशभावनया वयं सेवां कुर्मः तेन किं भवति इति चेत् मनसः शुद्धीकरणमेव भवति द स्माल् मैण्डेड् तिन्किङ्ग् विल् एक्चुलि गो अवे स्वस्य पृथक् अस्तित्वम् एव अपगच्छति इति अस्ति ओके विचित्रभगिनी अग्रे पठितुमिच्छति वा भगिनी अस्ति वा इदानीमपि न श्रूयते भगिनी प्रायः नेट्वर्क् समस्या अस्ति भवत्याः किम स्वामीजी पठितुमिच्छति वा आम अवश्य कस्् विद्या विद्यामासकर्म सिया अया असर दुष्ट दुष्टक दुष्कर्म विद्या क्रमेण सूक्ष्म प्रति कशि नयती अवद्य मया चूक्ष्म प्रति प्रगति अवरु्य सृष्टिनियमानुसारं मानवस्य गतिः सूक्ष्मं प्रति भवति सर्वैः च विद्यामायाः अनुसरणं कर्तव्यं भवति अनेन तेषां सूक्ष्मं प्रति गतिः त्वरिता भवति कश्चन शीघ्रं परमपङ्क्तौ पुनः आगच्छति यदि विद्याम विद्यामा कर्म, तह तर्म सत्कर्मे भविष्य भविष्य अभी चया मगेन क्रियाचर्य ति ते दुष्कर्मरूपेण भवति अनन्तरम् इत्युक्ते प्रथमं तु तथैव न दृश्यते अविद्यामायाः यदि अहं कुटुम्ब कुटुम्बे आस रूपेण अस्मि तर्हि प्रथमं न दृश्यते एतत् दुष्कर्म इति दुष्कर्म इत्युक्ते दुष्टकर्म इति नास्ति तस्य फलम् अनन्तरं दास्यन्ति खलु सूक्ष्मं प्रति प्रगतिम् अवरुध्यति इति न विद्येमाय इत्युक्ते भवान् किं चिन्तयति अत्र यद् पूर्वं चर्चितं अत्र विवेकः वैराग्यम् विद्यामाया इत्युक्ते विवेकः वैराग्यम् प्रकृतेः नियमानां पालनं तदनुगुणं वयं गच्छामः चेत् तदेव सत्कर्म सत्कर्मेण अग्रगतिः भवति सूक्ष्मं सु, प्रतिगमनं गमनं भवति अविद्यामाया इत्युक्ते यदपि इदानीमेव चर्चितम् अष्ट रिपवः षट् पाशाः पशुजीवने व्यस्ताः चेत् तत्र एते रिपवः आगच्छन्ति एते रिपवः तिष्ठन्ति अपि च पूर्वजन्मनि संस्काराः सन्ति चेत् तेनापि एते त्रिपवः भवन्ति मनः मनसः शुद्धीकरणं न जातम् तर्हि अविद्यमायाः याः पालनेन अग्रगतिः स्थगिता भवति अग्रगतिः न भवति तर्हि तत्र पुनः जन्ममरणचक्रे ते पतन्ति संस्काराः भवन्ति कर्मफलस्य भोगः पुनः भवति कर्मफलस्य भोगार्थं पुनः जन्म भवति आं किन्तु अविद्यमाय मार्गे mm. प्रथमं तथैव न दृश्यते खलु तथैव न दृश्यते मम कर्तव्यमस्ति मम कर्तव्यमस्ति एतत् करणीयम् इति चिन्तयन्ति किं करणीयं कार्य कार्यालये कार्यं करणीयं कार्यालये कार्यं करणीयं तद् अविद्यमया इति पूर्वस्मिन् परिच्छेदे तदेव अविद्यमाया किं किमर्थं तस, तस्मिन् कामं नास्ति का, इति, काम इति आ, आ, आ, वा इत्युक्ते कामक्रोधलोभः वा, इति एतत् सर्वं तर्हि पश्यतु कार्यालये कार्यं करोति तस्मिन् षड्रिपुः भवति वा न वा आमां कामः अस्ति इति वदति वा कामरूपेण सः कार्यं करोति किम् आमामाम् आं आम, वदतु आम, कर... आफीस् पालिटिक्स् इत्युक्ते किम् ओके ओके तर्हि अनेन किं वक्तुमिच्छति किं वक्तुमिच्छामि विद्यमाया मार्गेन प्रथमं दुष्कर्म इति न दृश्यते सामान्यतया न दृश्यते सत्यं सामान्यतया न दृश्यते दुष्कर्म इति न दृश्यते चिन्तयन्ति किन्तु कालान्तरेण परिवर्त परिवर्तनं भविष्यति तदेव दुष्कर्म भवति किमर्थं चेत् प्रगतिम् अवरुध्यति सूक्ष्मं प्रति इति मया उक्तम् आमां सम्यक् सम्यक् सम्यक् सम्यक् सम्यक, इदानीम् अवगतं यद् भवान् वक्तुमिच्छति इदानीम् इदानीं भूतम् आम् समीचीनम् सम्यक् इतोपि किमपि वक्तव्यं वा न सर्वम् अस्तु अस्तु सम्यक् बहु सम्यक् सम्यक् प्रथमतया मया न बुद्धं सम्यक्तया इति मया न बुद्धम् इदानीम् अवगच्छामि यद्भवान् वदति सम्यक् अस्ति समीचीनम् उत्तममस्ति अस्तु तर्हि सुचित्रभग्नि अग्रे पठितुमिच्छति श्रूयते वा इदानीं सम्यक्तया श्रूयते वदतु भगिनि कुतः आरम्भं करणीयम् ये विद्यामायाः ये विद्यामायाः अनुसरणं कुर्वन्ति तेषां चतुर्षु वर्गेषु विभागः शक्यते प्रथमं ये प्रकृतिनियमानाम् अनुसरणं कुर्वन्ति अपि च जीवात्मनः प्रगतेः कृते प्रयासं कुर्वन्ति ते सज्जनाः सन्ति द्वितीयं ये प्रकृतिनियमान् अनुसरणं कुर्वन्ति परन्तु जीवात्मनः प्रगतेः कृते प्रयत्नान् सन्ति तृतीयं ये प्रकृतिनियमान् अनुसरणं न कुर्वन्ति अपि च जीवात्मनः प्रकृतेः कृते प्रयत्नान् कर्तुम् उदासीनाः सन्ति एते निम्नाः इति उच्यन्ते चतुर्थ चतुर्थं ये प्रकृति नियमा अनुसरणं न कुर्वन्ति ते जीवात्मनः अवनतिहेतुः हेतुः भवति भवन्ति यथा एते अधमतमात् अधमतराः अधमतमात् अधमतराः भवन्ति अत्र विद्या ये जनाः तत्र चत्वारि विभागः सन्ति विद्यमायाः अनुसरणे तत्र प्रथमं ये भवन्ति ते प्रकृतेः नियमानाम् कुर्वन्ति पर अनन्तरं जीवात्मनः अग्रगते सृष्टिचक्रे अपि दशवादनतः द्वादशवादन अग्रगतीकर्तुम् इच्छन्ति तत्रापि ते प्रयासं कुर्वन्ति ते जनाः सन्ति ते सज्जनाः इति उच्यन्ते द्वितीयस्तरे भवन्ति ये प्रकृतिनियमान् तु अनुसरणं कुर्वन्ति नियमस्य पालनं कुर्वन्ति परन्तु जीवात्मनः अग्रगतेः तेषाम् उदासिना वर्तते अनन्तरं तृतीयस्तरे ये भवन्ति ते प्रकृतेः नियमस्य अनुस नियमानाम् अनुसरणं न कुर्वन्ति अनन्तरं ते अग्रगतेः अपि तेषाम् इच्छा न वर्तते तेषाम् उदासीनाः सन्ति अतः ते तृतीयस्तराः सन्ति तत्र प्रकृतिनियमस्य पालनमपि न भवति जीवात्मनः अग्रगतेः प्रयासमपि न भवति एते ये तृतीयस्तराः ते तु निम्नाः निम्नाः इति वक्तुं शक्यते चतुर्थस्तरे ये भवन्ति ते तु न तु प्रकृति नियमस्य अनुसरणं कुर्वन्ति न तु ऊर्ध्वगतिमपि तेषाम् इच्छा नास्ति परन्तु अधगतेः अपि तेषाम् इच्छा वर्तते अतः ते जीवात्मनः अधगतेः कारणं भवन्ति दशवादनतः पुनः ते अधोगतिं कृत्वा कुत्र पुनः आरम्भं कुर्वन्ति न जानीमः एतादृशः तेषां स्थितिः वर्तते ये चतुर्थे स्तराः सन्ति ते तु अधमा अधमतमात् आधामा अधमतराः भवन्ति ते अधमाः सन्ति इति वक्तुं शक्यते तदेव भगिनि आमां समीचीनं भगिनि समीचीनम् इत्युक्ते तृतीयचतुर्थस्तराः तु पशवः एव सन्ति पशवः सन्ति द्वितीयस्तरे तत्र किञ्चित् कश्चन प्रयासः अस्ति परन्तु साधनां न करोति एतावता प्रकृतेः नियमानां पालनं करोति तृतीयस्तरे चतुर्थस्तरे तु तदपि न ते कुर्वन्ति अस्तु समीचीनम् सहजनैतिकता इत्युक्ते तद् द्वितीयस्तरे भवति वा किं किं सहजनैतिकता दीज़ि मोराल्टि That is, that falls in the second category one? They are good sahaja. as long as things are good. What is sahajana? I, I don't know what is sahajana. No, no, sahaja naiti kata. Sahaja naiti kata. Sahaja naiti kata iti kate niyama yama niyama na palana miti ba? The people, they are good as long as things are good. Oh, people are good as long as Easy things moral, are good. Easy moral, please. भगिनी प्रकृ प्रकृतिनियमान् इत्युक्ते आहारव्यवहार व्यायाम इति योगनिष्ठजीवनस्य ये अङ्गानि सन्ति आसनप्राणायाम उत्पाध्यायसेवा लोकसेवा इति सर्वं सर्वं Hmm. तेन अग्रगतिः भवति तेन अग्रगतिः भवति प्रकृतिः अपि अग्रगतिः भवतु इति एव इच्छति अतः तस्य विद्यामायाः पालनेन अग्रगतिः भवति अतः तादृशनियमानां पालनम् आवश्यकमस्ति अवनति हेतु इत्यस्य अर्थं किमस्ति अवनति इत्युक्ते डीग्रेडेशन् इत्युक्ते तत्र डीग्रेडिङ्ग् डेप्सल्स् they degrading their mind even was then animals okay. so agri ma janmani pesham janma pasana kanda rupena bhavat marhati atva bhavati bhavishyati tata ja ja okay bhavateva swikrutagri saguna brahma na manushya nirmani uddesham asti yat manushya hi sukshnam prati swa marga अनुसर्तव्य येन ते पुनः परमपदम् प्रत्यागच्छन्ति अयमेव मनुष्याणां स्वभावः धर्म भवति परमपदम् प्राप्तुम् प्रयत्नः आवश्यकः जीवात्मनः उन्नयनार्थम् कर्माणि अपि प्रकृतिनियमानुसारम् भवेयुः एवं चेत् प्रकृतिः प्रगतिविघ्नान् न सृजति अतः प्रथमवर्गस्य जनाः अर्थात् सज्जनाः स्वभावजाः प्राकृतमनुष्य यतोहि स्वस्वभावानुसार भाव यतो भावानुसारं भावा, भावा कार्यं कुर्वन्ति यदर्थं सगुणभ्रमणा मनुष्याः निर्मिताः तदर्थं ते सज्जना एव पूरयन्ति uh, सगुणभ्रम अपि uh, मनुष्याणां सूक्ष्मस्य सूक्ष्मं प्रति फ्रम् दशवादनतः द्वादशवादनं प्रति प्रगति कर्तुम् इति सगुणभ्रमणस्य उद्देशः अस्ति सर्वे तं तस्मिन् लीना अभवन् किन्तु यदि प्रथमं मनुष्यस्य स्वस्य पुरुषारथ इति प्रयासः आवश्यकम् अस्ति मनुष्यः यदि स्वधर्मस्य पालनं करोति यदा प्रथमस्तरे वयं दृष्टवन्तः सज्जनाः ये सन्ति ये स्वस्य नियमाः अपि तेषां हृदि परमपुरुष प्रति प्रीति अस्ति तत्र गन्तुं ते अपि साधनां कुर्वन्ति इति तत्र सगुण ब्रह्म ते तैः तस्मै अपि अनुग्रहं करोति तेषां इति अस्ति तेषां यत् इच्छा अस्ति तत् पू करोति सगुणब्रह्मण इत्युक्ते तत्र सृष्टेः नियमानुसारम् अस्माकम् अग्रगतिः भवति भवतु इत्येव प्रकृतिः अपि इच्छति खलु शीघ्रतया अस्माकं भवतु इति सगुणब्रह्मणः उद्देशः अस्ति तदर्थम् प्रयासः करणीयः ये प्रथमस्तरे सन्ति उत्तमजनाः ते अवश्यं कुर्वन्ति प्रकृतेः नियमानां पालनं कुर्वन्ति अपि च साधनामपि कुर्वन्ति अतः झटिति तेषाम् अग्रगतिः भवति ये न कुर्वन्ति तेषां तु अधोगतिः भवति इति जानीमः तर्हि स्वामीजी स्वीकर्तुम् इच्छति वा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 स्वेषु पूर्णतया प्रतिबिम्बितस्य अणुचैतन्यस्य उपयोगं न कुर्वन्ति अतः तेषां विषये अन्यत् किमपि न वक्तुं शक्नुमः यतः ते, ते वेशे पशवः सन्ति अस्तु अत्र अणुचैतन्यस्य इत्युक्ते किम् आर्ये जीवात्मा यूनिट् कान्शियस्नेस्लेशन् जीवचैतन्यम् इति जीवात्मा जीव जीवात्मा अचवः किं प्रकृतिं न अनुसरन्ति ते अवश्यम् अनुसरन्ति किन्तु स्पष्टरीत्या चैतन्यप्रतिबिम्बं न भवति इति कृत्वा ते, ते मुक्षुत्वं न भवति तेषाम् अतः प्रयत्नमेव न भवति ये केवलं प्रकृतिनियमान् अनुसरन्ति बहवः जनाः तु केवलं प्रकृतिनियमान् यदस्ति अनुसरन्ति अतः पशुजीवनमेव ते अवलम्बन्ति किमर्थं चेत् मनुष्यः अपि पशुः अस्ति किन्तु उन्नतिं प्रति तस्य भावः अपि भवेत् तदेव भेदः अस्ति इति पूर्वं दृष्टम् तेषां विषये अन्यं किमपि वक्तुं न शक्नुमः अतः इत्युक्ते द्वितीयस्तरे ये जनाः सन्ति भगिनी सुचित्रा भगिनी उक्तवती सहजन ऐतिकता इति सहजनैतिकता इति एव पर्याप्तम् इति नास्ति ते अपि पशवः एव सन्ति यावत्पर्यन्तम् अग्रगतिः न भवति दशवादनात् अण्टल् ऐ डोण्ट् बिकम् टेन् पाय्ण्ट् ज़ीरो वन् ओर् टेन् पाय्ण्ट् ज़ीरो टु ऐ डोण्ट् मेक् एफर्ट् फ़ोर् देट् तावत्पर्यन्तं पशवः एव सन्ति अतः द्वितीयस्तरे अपि पशवः एव पशवः तत्र बहिः बहिः मनुष्याः अन्तः पशवः तृतीयस्तरे मृगाः हा मनुष्यरूपेण मृगाः सत्यम् तृतीयचतुर्थसराः तु अधमतमाः एव यतोहि ते तदपि न कुर्वन्ति अतः द्वितीयतृतीयचतुर्थसराः सर्वे पशवः पशुषु अपि स्तराः सन्ति तत्र ओके okay, अस्तु तर्हि सुचित्राभग्नि अग्रे स्वीकरोति वा तृतीये चतुर्थे च वर्गे ये सन्ति ते वस्तुतः पशुभ्यः अधमाः सन्ति पशवः तु जीवात्मनः उन्नयनार्थं कमपि प्रयासं न कुर्वन्ति यतः तेषु चैतन्यं स्पष्टतया न प्रतिबिम्बितं स्वेषां सर् स्वेषां सर्वेषां कर्मणां कृते पूर्णतया प्रकृतिनिर्भराः सन्ति पशवः कालान्तरेण स्पष्टतया स्पष्टतया विक... विकसितं प्रतिबिम्बितम् अनुचैतन्यं प्राप्नुवन्ति तृतीयचतुर्थवर्गयोः तु निम्नतमाः निम्नतराः च जनाः स्वेषु सम्पूर्णतया प्रतिबिम्बचैतन्यस्य उपयोगं न कुर्वन्ति तथा च प्रकृतिनियमानां विरुध्यं ते कार्यं कुर्वन्ति निम्नतमाः न केवलं प्रकृतिनियमानां विरुद्धं कार्यं कुर्वन्ति अपि तु स्वकर्मणां माध्यमेन अणुचैतन्यस्य प्रतिबिम्बे अधिकत्वयमपि आनयन्ति एतौ केवलं मानवरूपेण पशु अपितु तु पशुभ्यः अपि नीचौ अत्र ये तृतीयचतुर्थेश्वरे तेषाः तेषां स्तरः किम् इत्युक्ते ते ते पशुभ्यः अपि अधमाः सन्ति पशवः तु प्रकृतिनियमम् अनुसृत्य तेषां यत्किमपि जीवनस्य पालनं कुर्वन्ति ते क कदाचित् प्रकृतिनि नियमस्य उल्लङ्घनं न कुर्वन्ति परन्तु ये मनुष्यरूपी वसवः सन्ति तृतीयस्तराः वा चतुर्थस्तराः ते तु तेषां चैतन्यस्य प्रतिबिम्बं तु भवति परन्तु तेषां प्रति तत् चैतन्यस्य प्रतिबिम्बं वा तस्य अग्रगते जीवात्मनः अग्रगते प्रति तेषां चिन्तनमपि नास्ति ते सर्वदा तु ते, ते प्रायतः प्रकृतिनियमानां विरुद्धमपि कार्यं कुर्वन्ति अनन्तरम् ते जीवात्मनः अधोगतेः अपि नयन्ति अधोगतिं भवति अणुचैतन्यस्य क्षयमपि आनयन्ति अतः ते तु आ, यद्वयं वदामः मनुष्यरूपीपसवः एव अथवा पशुभ्यः अपि नीचतराः ते भवन्ति ये तृतीयचतुर्थेश्वराः चतुस्ते स्तरे जनाः सन्ति प्रकृतेः नियमस्य पालनं कृत्वा पशवः किमपि किं वदामः तेषाम् इच्छा तु फैनैट् अस्ति अतः ते किमपि अणुचैतन्यस्य चिन्तनमपि न भवन्ति परन्तु ते पशुभ्यः परन्तु तादृशः स्थितिः मानवानां नास्ति ते तेषां यद् इन्फैनैट् डिसैर् अस्ति इति परन्तु ते तस्य अनुपयोगं ते तस्याः किं कुर्वन्ति निषेधुरुपयोगं कुर्वन्ति कुर्वन्ति दुरुपयोगं कृत्वा ते जीवात्मनः जीवात्मनस्य अधोगतिः आनयन्ति समीचीनं वस्तुतः ये द्वितीय तृतीयचतुर्थस्तरे ये जनाः सन्ति तेषु सामर्थ्यमस्ति साधनां कर्तुं तेषु सामर्थ्यमस्ति प्रकृतेः नियमानां पालनं कर्तुं तेषु सामर्थ्यं अस्ति परन्तु सामर्थ्यस्य प्रयोगं न कुर्वन्ति प्रयोगं न कुर्वन्ति अतः ते पशवः इति अपि वक्तुं न शक्नुमः वस्तुतः ते पशुभ्यः अपि अधमाः सन्ति यतोहि पशवः पशुस्तु तु तादृशसामर्थ्यं नास्ति अग्रगतिं प्राप्तुं सामर्थ्यं नास्ति अतः ते तस्य किं नियम प्रकृतिनियमानुगुणं ते व्यवहरन्ति परन्तु मनुष्येषु सामर्थ्यं वर्तते परन्तु सामर्थ्यमस्ति चेदपि चैतन्यस्य प्रतिबिम्बस्य विकासाय ते प्रयत्नं न कुर्वन्ति अतः ते वस्तुतः पशुभ्यः अधमाः सन्ति इति मर्थ्यस्य व्यर्थता अत्र वयं द्रष्टुं शक्नुमः तर्हि अन्तिमपरिचयः सरलाभग्नि स्वीकरोतु कर्मणां प्रतिक्रिया कर्मफलानि अनुभोक्तव्याः भवन्ति इति पूर्वाध्याये दर्शितम् आसीत् न कश्चित् तेषाम् अनुभवात् मुक्तः भवति स्वस्य कर्मणां प्रतिक्रियाः स्वयमेव अनुभोक्तव्याः भवन्ति अनेके सन्ति ये अस्याः प्रतिक्रियायाः कर्मफलानां दुःखात् पालयनस्य अभिप्रायेण विविधाः पद्धति प्रयतन्ते तेषां प्रयत्नाः पद्धतयः च कियत्पर्यन्तं युक्तिपूर्वकात् तर्का तर्क आधारिताः सन्ति अपि च प्रतिक्रिया अनुभवात् कर्मफलात् पलायितुं ते सफला भवितुम् अर्हन्ति वा इति अधः चर्चयते स्व स्वकर्मणा भोक्तव्या भवन्ति भोक्तव्यानि इति तु प्रकृतेः प्रकृतेः नियमः अस्ति यदि स्वस्य कर्मफल अस्माभिः स्वकर्म एव भोक्तव्यं भवति किन्तु यदि कि कर्मफल दुःखम् अस्ति तस्य निवारणार्थं जनाः बहवः अन्या प्रयत्नाः कर प्रयासं कुर्वन्ति यथा ये ज्योतिषं प्रति गच्छन्ति वा के पूजां Uh, कारयन्ति इति तु ते तेषां दुःखस्य फल अपगच्छति वा तत् न्यूनं भवति इति द्रष्टव्यम् अधोभागे पुनः तस्य दीर्घचर्चा अस्ति किन्तु इति अस्माभिः मन्तव्यं यत् कर्मफल कर्म अहं करोमि तस्य कर्मफलम् मया एव भो भोक्तव्यं भोक्तव्यं भवति न तु अन्य मम कर्मफल कर्मफलं मम कर्मफल किम् अन्य प्रति न गच्छति इति अस्ति मया एव तस्य भोक्तं कर्तव्यम् इति अस्ति मया एव तस्य अनुभवः तस्मात् वयं पलायितुं न शक्नुमः आमां समीचीनं हिन्दीभाषायां जैसि कर्णीवर् यू सत्य कुर्मः तस्य फलम् अवश्यं भवति अवश्यं भवति तस्य अनुभवः अस्माभिः एव भोक्तव्यः तत् तद् जीवात्म प्रत्येकस्मिन् यः जीवात्मा अस्ति सः एव तस्य अनुभवं प्राप्नो प्राप्नोति न तु अन्यः परन्तु तस्य कर्मफलानां कर्मफलस्य कर्मफलात् यद् दुःखं लभ्यते तस्य निवारणार्थं प्रयासं जनाः कुर्वन्ति अस्तु इतः अग्रे अग्रे, अग्रे गच्छामः खलु अत्र स्थगनं कुर्मः किमपि वक्तव्यं वा अस्तु तर्हि धन्यवादः नमस्कारः धन्यवादः भगिनि नमस्कारः नमस्कारः